अथैको न पञ्चाशः सर्गः घोरेण शरबन्धेन बद्धौ दशरथात्मजौ निःश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ सर्वे देवानरः श्रेष्ठाः स सुग्रीवमहाबलाः परिवार्यमहात्मानौ तस्थुः शोकपरिप्लुताः एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् स्थिरत्वात्सत्त्वयोगाच्च शरैः सन्धानितोऽपि सन् ततो दृष्ट्वा स रुधिरम् निषण्डम् भ्रातरं भ्रातरम् दीनवदनम् पर्यदेव लब्धया जीवितेन वा योद्य पश्यामि भ्रातरम् युधिनिर्जितम् शक्या सीता समानारी न लक्ष्मणसमो भ्राता सचिवः साम् परायिकः परित्यक्ष्याम्यहम् प्राणान् वानराणाम् तु पश्यताम् यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः किम् नु वक्ष्यामि कौसल्याम् मातरम् किम् नु कैकयीम् पुत्रदर्शनलालसा विवत्साम् वेपमानाम् च वेपन्तीम् कथमाश्वासयिष्यामि यदि यास्यामि तम् विना कथम् वक्ष्यामि शत्रुघ्नम् भरतम् च यशस्विनम् मया सह वनम् यातो विना तेनाहमागतः उपालम्भम् न शक्ष्यामि सोढुमम्बा सुमित्रया इहैवदेहम् त्यक्ष्यामि न हि जीवितुमुत्सहे धिङ्माम् दुष्कृतकर्माणमनार्यम् यत्कृते ह्यसौ लक्ष्मणः पतितश्चेते शरतल्पे गता सुवत् त्वम् नित्यम् सुविषण्णम् मामाश्वासयसि लक्ष्मणा गता सुर्नाद्यशक्तोऽसि मार्तमभिभाषितुम् येनाद्य युद्धे निहता राक्षसाः क्षितौ तस्यामेवाद्यशूरस्त्वम् शेषे विनिहतः शरैः शयानः शरभूतस्ततो भासि भास्करोऽस्तमिव व्रजन् बाणाभिहतमर्मत्वान्नशक्नोषीहभाषितुम् रुजा चाब्रुवतो यस्य दृष्टिरागेण सूच्यते यथैव माम् वन्यान्तमनुयातो महाद्युतिः अहमप्यनुयास्यामि तथैवैनम् यमक्षयम् इष्टबन्धुजनो नित्यम् माम् च नित्यमनुव्रतः इलामद्यगतोऽवस्थाम् ममा नार्यस्य दुर्नयैः सुहृष्टेनापि वीरेण लक्ष्मणेन संस्मरे परुषम् विप्रियम् चापि श्रावितम् तु कदाचन विससर्जैकवेगेन पञ्चबाणशतानि यः विश्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच्च लक्ष्मणः अस्त्रैरस्त्राणि यो महात्मनः सोऽयमुर्व्याम् हतश्चेते महार्हषयनोचितः तत्तु मिथ्या प्रलप्तम् माम् प्रधक्ष्यति न संशयः यन्मया न कृतो राजा राक्षसानाम् विभीषणः अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि मत्वा हीनम् मया राजन् रावणोऽभिभविष्यति अङ्गदम् तु पुरस्कृत्य ससैन्यम् सपरिच्छदम् सागरन्तरसुग्रीवनीलेन च नलेन च कृतम् हि सुमहत्कर्म यदन्यैर्दुष्करम् ऋणे वृक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च अङ्गदेन कृतम् कर्म, कर्म मैन्देन द्विविधेन च युद्धम् केसरिणा सङ्ख्ये घोरम् सम्पातिना कृतम् गवयेन गवाक्षेण शरभेण गजेन च अन्यैश्च हरिभिर्युद्धम् मदर्थे त्यक्तजीवितैः न चातिक्रमितुम् शक्यम् दैवम् सुग्रीवमानुषैः यत्तु शक्यं वयस्येन सुहृदा वा परम् मम कृतम् सुग्रीव तत्सर्वम् भवता धर्मभीरुणा मित्रकार्यम् कृतमिदम् भवद्भिर्वा नरर्षभाः अनुज्ञाता सर्वे यथेष्टम् गन्तुमर्हथा शुश्रुवुस्तस्य ये सर्वे वानराः परिदेवितम् वर्तयाञ्चक्रिरे श्रोणिनेत्रैः कृष्णेतरेक्षणाः ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः आजगामगदापाणित्वरितम् यत्र राघवः तम् दृष्ट्वा त्वरितम् नीलाञ्जनचयोपमम् वानरा दुद्रुवः सर्वे मन्यमानास्तु रावणीम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः